मुद्गलपुराणं घण्टं सिक्स् विकटचरितम् अध्यायं तर्टि त्रि कामासुरपुत्रवधम् श्रीगणेशाय नमः आदिशक्तिरुवाच समागतं अहत्सैन्यं नाना शस्त्रविराजितम् अपारं तत्समालोक्य देवेश्या गणपं ययुः देवेश्या ऊचुः कामासुरस्वयं साक्षादाकतः स महाबलः यस्याग्रे देवदेवेश मशका इव सम्बूवुः यस्य शस्त्रबलं स्वामिन्नमोखं सर्वदा बभौ नबले बले सदृशस्तस्य सोऽयं कामः समागधः रक्षनः कामसन्द्रस्तान्नो काम देवर्षीणां गणेशान् जीवग्राहं करिष्यति तेषां वचनमाकर्ण्य तान् जगाद गजाननः मा भयं कुरु तत्प्राज्ञा हनिष्यामि महासुरं मदनग्रहतः सर्वे समर्था देवनायकाः भविष्यधनसन्देहो युध्यध्वं दानवैः सह विकटस्य वच श्रुत्वा जगर्जुश्र संयुक्ता भयना गर्जित श सर्वं दिगंधरम दैत्या भयुता सर्वे बहुवुस तथ क्रोधसम दैते शिमुख्य जगर्जुःसिंहनादैश्च शङ्खनादैः समन्तदः तदो दैत्यगणा सर्वे मुमुचुः शस्त्रपाणयः शस्त्रवृष्टिं महोग्रां च मेखा इव शिलोचये तदो देवास्वशस्त्रास्तान्निवार्ययुयुधुः परम् दैत्यावा महोग्र चुयुस्ते यु पर ना भूस्वरबोधि रजसचाधिरव जघ्नुपरस्पर द्रास्त्र भेदी तदोरक्त सोख नदी जादा दुरतया प्रवाह बहुलारक्तैरज शान्तं बभूवः एवमेकदिनं घोरं दिवानिशि निरन्तरं युग्धं बभूव दैत्यानां देवानां तु जयैषिणां तदो देवा जयैर्युकदा जयैर्युक्ता बभूवुर्दैत्यमुख्यकान् जघ्नुशस्त्र प्रहारैस्तु प्रपेलुर्दैत्यनायकाः तद्दृष्ट्वा परमाश्चर्यं दैत्येन्द्रा क्रोधमादधुः बलिमुख्या महावीर्या आयूरणमण्डलम् तैः शस्त्रास्त्रबलैः सर्वं देवानां प्रहदं बलम् प्रपेलुरमरास्तत्र भयभीता दिशो दश तद इन्द्रः समायातो जखानामर्षतो बलिं वज्रेण पादयामास दानवेन्द्रं महाबलं तदो हर्षयुगा देवा जगर्जुर्नादसंयुताः महेन्द्रम् कुंभकर्णच हृद विव्याध मुिनाद्रपादूपृषेतो विषुर्मबल चक्रम संक्रुद्धो ऋणूम विचक्षण चक्रेण हदा हता दैत्यासम रावणक्रोधसंयुक्तस्तं व्ययौ रणकाम्यया गदया विष्णुना तत्र हदो मूर्चा मूर्च्छामवापः कुम्भकर्णं तथा विष्णुर्मूर्च्छितं प्रचकारः तदो दुर्मदकस्तत्र महिषशङ्करस्तथा समाजक्मुर्मः विष्णुं क्रोधयुक्ता समन्ततः ततो दिव्याकुलं दृष्ट्वा केशवं शङ्करस्वयं त्रिशूलं गृह्य वेगेन भानुश्चैव समाययौ भानुना दुर्मदस्तत्र गदया पीडितो भृशम् मूर्च्छितः स पपातैव वमन्रम् मुखाद् बहु त्रिशूलेन हतस्तत्र शङ्कर च पपादस धरापृष्ठे मूर्च्छितो सुरनायकः चक्रेण महिषस्तत्र विष्णुना मूर्छितकृतः तदो हारवं कृत्वा प्रपेलुर्दैत्यदानवाः देवानाम जयुक्तानां बलं दृष्ट्वा महामुनिः शुक्रस्तान् दैत्यमुख्यांश्च जीवितुं यत्नमादधे एतस्मिन्नन्तरे तत्र महाकाली समाययौ काव्यं गृह्य यौ देवी तं चिक्षेपगुहान्तरे तदः कामासुरशोकयुधो दैत्यः प्रतापवान् निःश्वस्य योद्धु मायातस्तस्य पुत्रौ समोचदुः तिष्ठतादगमिष्यावो रणं कृत्वा महारिपुं हनिष्यावो न करिष्यदि विघ्नपः यवमुक्त्वा महावीर्यौ दैत्यपुत्रौ रणस्थलं यय दुःशङ्करं विष्णुमोचधु क्रोधसंयुतौ शोषण उवाच महादेव हत्वा दैत्यगणान् पुरा अधुना त्वां हनिष्यामि पश्य मे पौरुषं परम् शिवोऽसि त्वं शिवा तुल्यो गच्छारण्यं मरिष्यसि पशुभिश्च मदग्रेतु किं करिष्यसि तद्वद श्रीशङ्कर उवाच शोषणत्वं समर्थश्चाधुना हन्विन संशयः विकटतेजसायुक्तपौरुषं दर्शय स्वरे श्रुत्वा बाणान् महाबाहुश्चिक्षिपा मोखरूपकान् तैस्ते देवगणाः सर्वे मूर्च्छिताः पतिता मृधे शङ्करस्तं महावीर्यं योधयामासवेगदः सोऽपि क्रोधसमायुक्तस्तं विव्याध शरैः ततस्त्रिशूलकादेन शोषणश्च पपातः क्षणाल्लभ्य ततः सञ्ज्ञां शम्भुं भ्रामयित्वा प्रचिक्षेप महापर्वदमस्तके तदो हर्षयुधा दैत्यास्तं जये दिशंशिरे दुष्कूरो विष्णुमागत्य तं जगाद सुरेश्वरं क्रोधयुक्तो महाबाहुर्बलेन भृशगर्वितः दुष्पूर उवाच किं विष्णो त्वं माम्न जानासि दुर्मदे हदास्त्वया महावीरा मदीया दैत्यनायकाः फलं गृहाणमत्तस्त्वं तेषां देवानुसारिणां सहायस्त्वं हदो नूनम् गमिष्यसि यमक्षयं तस्य तद्वचनं श्रुत्वा क्रोधयुक्तश्च केशवः जगादतं महावीर्यं दैत्यपुत्रं सुगर्वितं श्रीविष्णुरुवाच किं मां वदसि पापिष्टहनिष्यामि न संशयः विकटसत्तयात्वाहं कुरु दैत्यज तदक्रोधसमाविष्टो दुष्पूरो गदयात्वहन् विष्णुं तयादिदुःखेन पपात धरणीतले तदो देवेन्द्रमुख्याश्च दुष्पूरं शस्त्रवर्षतः मारयामासुरव्यग्रासोऽपि चिक्षेपसायकान् शतैः सन्ताडयामास भानुं तेजस्विनां वरम् इन्द्रं शधैर्यमं वायुं ब्रह्माणं च व्यपादयद तदो विष्णुश्च दुष्पूरं सावधानो जखानः चक्रेन मूर्च्छिदं चक्रे, चक्रे दैत्यपं रणमूर्धनि पुनः संज्ञां समासाद्य बाणायर्विष्णुमपीडयदर् सहस्रायर्मूर्छिदं कृत्वा जगर्ज हर्षयन् स्वकान् एवं दैत्येना शोषणेन चषक्तयः कृतं कर्म रणे तुल्यं जयुक्तप्रभावतः दैत्येन्द्रायिर्बलिमुख्यैश्च सावधानैस्तदन्तरे तैः स्तुतौ दैत्यराजस्य पुत्रौ तत्र विरेजधुः तदो देवगणान् हन्तुम् दैत्येशा बलसंयुताः मदीं चक्रुस्तध क्रुद्धो बभूवद्विरदाननः पाशं चिक्षेपवेगेन तद्धां कुशं गजाननः पाशोषणकण्ठं तु समागत्य स्थितो भवत रुद्धश्वासपाशेन पपादशोषणो मृधे हस्तौ पादौ प्रचाल्यैव ममारतत्क्षणात्तदः अङ्गुरः सहसागत्य जखानोदरगे तदः दुष्पूरं स ममारैव वा पश्यतां दैत्यरक्षसा तद पाशाङ्गुश्यौ तत्र चेर हत्वा दैत्यानने रवाकुलान चरदूरण्डले हवा दैत्याननेरवाकुलाख्या भयोद्घ्नास्त्जा प्रपेलु प्रपेलुशस्त्रीनाते दश दिक्षु दिक्षुतरे तदो विघ्नेश हस्तगौ संबभूवधुः पाशाङ्गुषौ गणेशस्योत्तस्तु दृष्ट्वा मराः पुनः नीरुजो बलसंयुक्तास्तुष्टुर्विकटं तदः दैत्या शोकाकुलास्तद्वद्रुरुदुः सर्वतो दिशां। ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे षष्ठे खण्डे विकटचरिते कामासुरपुत्रवधो नामत्रयस्त्रिंशत्तमोऽध्यायः ॐ